दान्तम् यच्च सभा मध्य आसनम् रत्नभूषितम् दृष्ट्वा कुशवृषीञ्चेमाम् शोको माम् प्रदहत्ययम् यदपश्यम् सभा यान् त्वाम् तच्च राजन्न पश्यन्त्याः काशान्तिर्हृदयस्य मे या त्वा हञ्चन्दनादिग्धमपश्यम् सूर्यवर्चसम् सा त्वाम् पङ्कमलादिग्धम् भारत ज्ञात्वा हङ्कौशिकै वस्त्रै शुभ्रैराच्छादितम् पुरा दृष्टवत्यस्मि राजेन्द्रः सा त्वाम् पश्यामि चीरिणम् यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः ह्रियते ते गृहादन्नम् संस्कृतम् सार्वकामिकम् यतीनाम गृहाणान्ते तथैव गृहमेधिनाम् दीयते भोजनम् राजन्नतीव प्रभो सत्रितानि सहस्राणि सर्वकामैस्पुरा गृहे सर्वकामैस्तु विहितैर्यज पूजयथाद्विजान् तच्च राजन्न पश्यन्त्याः काशान्तिर्हृदयस्य मे यत्ते भ्रातृन् महाराज युवानो मृष्ट कुण्डलाः अभोजयन्त जयन्त मृष्टान्नैः सूदाः परम संस्कृतैः सर्वाम् पश्यामि वने जीविनः अदुःखार्हान् मनुष्येन्द्र नोपशां यति मे मनः वनवासिनम्